श्रीसरस्वती ध्यानम् तरुणकलमिन्द्रोर्विभ्रति शुभ्रकान्तिः कुचभरणमिताङ्गी सन्निषण्णाशिताब्दे निजकरकमलोद्यल्लेखनि पुस्तकश्री सकलविभवसिद्ध्यै पातु वाग्देवतानः वाणी पूर्णनिसाकरोज्ज्वलमुखे कर्पूरकुन्दप्रभां चन्द्रार्धाङ्कितमस्तकां निजकरै सा मे मुद्रामक्षगुणं शुधाड्यकलशं विद्यां च हस्ताम्बुजये बिभ्राणां विशदप्रभां तिरणां वाग्देवतामाश्रये श्रीसरस्वतीप्रणामः भद्रकाल्यै नमो नित्यम् सरस्वत्यै नमो नमः वेद वेदांत। विद्यास्थानेभ्य एव च जय जय देविचराचरसारी कुचयुगलशोभितमुक्तहारी वीडापुस्तकरञ्जितहस्ते भगवति भारती देवी नमस्ते